अथ पञ्चदशोऽध्यायः सौतिरुवाच मात्रा हि भुजगाः शप्ताः पूर्वम् ब्रह्मविदाम्बर जनमे जयस्य वोयज्ञे धक्ष्यत्यनिलसारथिः तस्य शापस्य शान्त्यर्थम् प्रददौपन्नगोत्तमः स्वसारमृषये तस्मै सुव्रताय महात्मने स च जग्राह विधिदृष्टेन कर्मणा आस्ति को नाम पुत्रश्च तस्याम् जज्ञे महामनाः तपस्वी च महात्मा च वेदवेदाङ्गपारगः समः सर्वस्य लोकस्य पितृमात्रभयापहः अथ दीर्घस्य कालस्य पाण्डवेयो न राधिपः आजहारमहायज्ञम् सर्पसत्रमिति श्रुतिः तस्मिन् प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै मोचयामास तान्नागान् आस्तीकः सुमहातपाः भ्रातॄंश्च तथैन सितृंशतसाथा व्रतश्च विध्रध्यायोत दर्पयास येवधदक्षिणी ब्रह्मचर्य सत्या चिता अपहृत्य गुरुम्भारम् पितॄणाम् संशितव्रतः जरत्कारुर्गतः स्वर्गम् सहितः स्वैः पितामहैः आस्तीकम् च सुतम् प्राप्य धर्मम् चानुत्तमम् मुनिः जरत्कारुः सुमहता कालेन स्वर्गमेयिवान् एतदाख्यानमास्तीकम् यथावत् कथितम् मया प्रब्रूहि भृगुशार्दूल किमन्यत् कथयामि ते इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पाणाम् मातृशापप्रस्तावे पञ्चदशोऽध्यायः